मार्कण्डेयपुराणम् अध्यायं ट्वेण्टि नैन् अलर्क उवाच यत्कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्ततां बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रुतिः उपकाराय यन्तृणां यच्च वर्ध्यं गृहे सदा यथा क्रियते तन्मे यथावत् पृच्छदो वद मदालसोवाच वत्स गार्हस्त्यमादाय नरः सर्वमिदं जगद पुष्णादितेन लोकांश्च स जयत्यभिवाञ्छितान् पितरो मुनयो देवा भूतानि मनुजास्तथा कृमिकीडपदङ्गाश्च वयांसि पशवो सुराः गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च मुखं चास्य निरीक्षन्ते अपि नो दास्यदि वै सर्वस्याधारभूतेयं मयि यशम प्रतिष्ठिम विश्वं विश्वहे दुश्चया मता ऋक्पृष्ठा सौ यजुर्मद्या साम वक्तशिरोधरा इपूर्त विषाण साधु सूक्तनू शान्ति पुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता आजीव्यमाना जगदां साक्षया नापचियते। स्वाहाकार स्वधाषत्कारश्च पुत्रक हन्धकारस्तथा चान्यस्तस्यास्तन स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयं मुनयश्च वषट्कारं देवभूद सुरेतराः अन्धकारं मनुष्याश्च पिबन्दिसदं स्तनं एवमाप्याययत्येषा वत्सधेनुस्त्रयीमयी तेषा मुच्छेदकर्ता च यो नरोत्यंत स तमस्यान्थतामिस्त्रे तामिस्त्रे, तामिस्त्रे च निमज्जति यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः पाययत्युचिते काले सस्वर्गायोपपद्यते तस्मात् पुत्रमनुष्येण देवर्षि पितृमानवाः भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा तस्मात्रादशुचिर्भूत्वा देवर्षि पितृतर्पणम् प्रजापदेस्तदैवादिभकाले समाहितः सुमनो गन्धपुष्पैश्च देवानभ्यर्च्यमानवः तदोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा ब्रह्मणे गृहमध्येदु विश्वे देवेभ्य एव च धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् प्राच्यां शक्राय यमाय बलिमाहरेद प्रदीच्यां वरुणायाध सोमायोत्तरदो बलिं दध्या धात्रे विधात्रे बलिम द्वारे गृहस्य तु बहिर्द्यात् गृहेभ्यश्च समन्तदः नक्तञ्चरेभ्यो भूदेभ्यो बलिमाकाश्यदो हरेद इतॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः गृहस्तत्परो भूत्वा सुसमाहितमानसः सतस्तोऽयमुपादाय तेष्वेवाचमनाय वै स्थानेषु निक्षिपेत् प्राज्ञस्तास्ता उद्दिश्य देवताः एवं गृहबलिं कृत्वा गृहे गृहपदि शुचिः आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् श्वभ्यश्च स्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि त्वयि स्वदेवं हि नामैतत्सायं प्रादरुदाहृतम् आचम्य च तथा कुर्यात्प्राज्ञोद्वारावलोकनं मुहुर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिधिर्भवेत् अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च सम्पूजयेद्यथाशक्तिगन्धपुष्पादिभिस्तथा न मित्रमतिथिं अज्ञातकुलनामानं तत्कालसमुपस्थितं बुभुक्षुमागदं श्रान्तं याजमानमकिञ्चनं प्राक्मणं प्राहुरतिथिं स पूज्य शक्रितो बुधैः न पृच्छेद्गोत्रचरणं स्वाध्यायञ्चापि पण्डितः शोभनाशोभनाकारं तं मन्येदः प्रजापतिम् अनित्यं हि स्थितो यस्मात् तस्मादधिरुच्यते तस्मिन् तृप्ते नृयज्ञोद्धादृणान्मुच्येद्गृहाश्रमी तस्मादधत्त्वा यो भुङ्क्रे स्वयं किल्विषभुङ्नरः सपापं केवलं भुङ्क्ते पुरी सञ्चान्यजन्मनि अधिधीर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते स दत्त्वात् दुष्कृतं तस्मै पुण्यमादाय गच्छति अप्यम्बुशागदानेन यद्वाप्यश्नादिशस्वयं पूजयेत्तु नरः शक्त्या तेनैवातिथिमादराद् कुर्याच्चाहरहस्राद्धमन्नाद्येनोदकेन च पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेद् भिक्षाञ्च दद्यात् परिव्राट् ब्रह्मचारिणां ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् अग्रं चतुर्गुणं प्राहुर्हन्धकारं द्विजोत्तमाः भोजनं हन्धकारं वा अग्रं भिक्षा मथापि वा अदत्त्वा तु न भोक्तव्यम् यदा यम भोजयिथीनिष्ठा ज्ञा बंधूं तथा विकला बा भोजयेचादुरा तछदेक्षुत्रीतात्मा योनमक कुटुम्ब विना भोजनीयः समर्थे विभवे सदि श्रीमन्दं ज्ञादिमासाद्य यो ज्ञादिरह्वसीदधि सीददा यत्कृतं तेन तत्पापं स सा सायं चैव विधिकार्यसूर्योढं तत्र चातिथिम् पूजयीदयधा शक्रि शयनासनभोजनैः एवमुद्धवहतस्तादगार्हस्थ्यं भारमाहिदं स्कन्धे विधादा देवाश्च पितरश्च महर्षयः श्रेयोभिवर्षिणः सर्वे तथैवातिथिबान्धवाः पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः गाधाश्चात्र महाभागस्वयमत्रिरगायद ता शृणुष्व महाभागृहस्थाश्रमसंस्थिताः देवान् जामयश्च गुरुञ्जैव गृहस्थो विभवे सदि श्वभ्यश्च स्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि वैश्वदेवं हि नामैतत्कुर्यात् सायं तथा दिने मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् नचा श्री नवयशनी निर्वेद नामो मदाशोपदेशो नामिशोध्याय